अम्बत्योन्नावद् दशकम् अगासुरवतम् कदाचन <laughs> व्रजसिषुपि समम् भवान् वनाचने विहितमतिप्रगेतराम् समावृतो बहुधरवत्समण्डलैः सदेमनैर्निरगमदीशजेमनै विनिर्यतस्तव चरणाम्बुजद्वयाद् उदञ्चितम् त्रिभुवनपावनम् रजा महर्ष्यपुलगधरैकलेवरै उदूहिरेत्र तव वदीक्षणोत्सव प्रचारयत्य विरलशाद्वले पशून् विभो भवति समम् कुमारगै अगासुरोऽन्यरुणदगाय वर्तनी भयानगः समति सयानकाग्रते महाचल प्रतिमतनोर्गुहानिव प्रसारित प्रथितमुखस्य कानने मुकोधरम् विकरणकौतुगात् कुमारका किमपि विदोरगे त्वये प्रमादत प्रविशति पन्नगोचरम् क्वदत्तनोपशुपकुले स वत्सके विधन्वितम् त्वमपि विवेचित प्रभो सुहृज्जनम् विचरणमासुरक्षितम् गलोदरे विपुलितवर्ष्मणा त्वया महो महोरगे लुटति निरुद्धमारुते धृतम् भवान् विदलितकण्टमण्डलो विमोचयन् पशुपपशोन् विनिर्ययो क्षणम् दिवि त्वदुभगमार्तमास्थितम् महासुरप्रभव महो महो महत् विनिर्गते त्वयि तु नभस्तलेननृतुरतो जगुः सुर सविस्मयै कमलभवादिभिः सुरै अनुधृतस्तदनुकदकुमारकै दिने पुनस्तरुणदसामुपेयुषि स्वकैर्भवा न निवेचयन् कबलधरकराम्बुजे प्रहासयन् कलवचनै कुमारकान् बुभुजितत्र दशकणैर्मुतानुत सुखासनम् विगतव कोपमण्डले महाशनात् मरुत्पुरे निलय गतात् प्रपाहि माम् कृष्ण जय कृष्ण जय कृष्ण जय कृष्ण कृष्ण कृष्ण कृष्ण कृष्ण जय